अरण्यकाण्डं सर्गं तन् श्रीमहादेव उवाच लब्ध्वा वरं स गन्धर्वः प्रयास्यन् राममब्रवीद शबर्यास्ते पुरोभागे आश्रमे रघुनन्दन भक्त्यात्वत्पादकमले भक्तिमार्गविशारदा तां प्रयाहि महाभाग सर्वं ते कथयिष्यति इत्युक्त्वा प्रययसोऽपि विमाने नार्कवर्चस विष्णोःपदं रामनामस्मरणे फलमीदृश्यं त्यक्त्वा तद्विपिनं घोरं सिंहव्याघ्रादिदूषितं शनैरथाश्रमपदं रघुनन्दनः शबरीराममालोक्य लक्ष्मणेन समन्वितम् आयान्तमाराद्धर्षेण प्रत्युद्धाया चिरेण सा पतित्वा पादयोरग्रे हर्ष पूर्णाश्रु लोचना स्वाकथेनाभिनन्द्याधस्वासने संन्यवेशयत् रामलक्ष्मणयोः सम्यक् पादौ प्रक्षाल्यभक्तितः तज्जले नाभिक्षिच्याङ्गमधार्घ्यादिभिरादृता सम्पूज्य विधिवद्रामं ससौमित्रीं सपर्यय सङ्गृहीतानि दिव्यानि रामार्थं शबरीमुदा फलान्यमृतकल्पानि ददौ रामाय भक्रेदः पादौ सम्भूज्य कुसुमै सुगन्धैः सानुरेपनैः कृतातिथ्यं रघुश्रेष्ठमुपविष्टं सहानुजं शबरीभक्तिसम्पन्ना प्राञ्जलेर्वाक्यमब्रवीद अत्राश्रमे रघुश्रेष्ठ गुरवो मे महर्षयः स्थिता शुश्रूषणं तेषां कुर्वती समुपस्थिता बहुवर्षसहस्राणि गदास्ते ब्रह्मणः पदं त्वं वसात्रैव समाखिता रामो दाशरधिर्जातः परमात्मा सनातनः राक्षसानां वधार्थाय ऋषीणां रक्षणाय च आगमिष्यति चैगाग्रध्याननिष्ठा स्थिरा भव इदानीं चित्रकूडाद्रावाश्रमे वसति प्रभुः यावदागमनं तस्य तावद्रक्षकलेवरं दृष्ट्वैव राघवं देहं यास्यसि तत्पदम् तथैवाकरवं रामत्वध्यानैकपरायण प्रतीक्ष्यागमनं तेद्य सफलं गुरुभाषितं गुरु तव सन्दर्शनं राम गुरूणामपि मे न हि योषिन्मूढा प्रमेयात्मन् हीनजाति समुद्भवा तव दासस्य दासानां वा दासित्वे नाधिकारोस्ति कुतः साक्षात् तवैव हि कथं रामाद्य मे दृष्टस्त्वं मनोवागगोचरः स्तोतुं न जाने देवेश किं करोमि प्रसीदमे श्रीराम उवाच पुंस्त्वे स्त्रीत्वे विशेषो वा जातिनामाश्रमादयः न कारणं मद्भजने भक्तिरेव हि कारणं यज्ञदानतपोभिर्वा वेदाध्ययनकर्मभिः नैव द्रष्टुमहं शक्यो मद्भक्तिविमुखै सदा तस्माद्भामिनि सङ्क्षेपाद्वक्ष्येहं भक्तिसाधनं सदां सङ्गतिरेवात्र साधनं प्रथमं स्मृतं द्वितीयं मत्कथालापस्तृतीयं मद्गुणेरणं व्याख्याधृत्वं मध्वजसां चतुर्थं साधनं, साधनं भवेद् आचार्योपासनं भद्रे मत् मद्बुद्ध्या मायया सदा पञ्चमं पुण्यशीलत्वं यमादिनियमादि च निष्ठामत्पूजने नित्यं षष्ठं साधनमीरिदं मम मन्द्रोपासकत्वं साङ्गं सप्तममुच्यते मद्भक्तेष्वधिका पूजा सर्वभूतेषु मन्मतिः भाष्यार्थेषु विरागित्वं समाधिसहितं तथा अष्टमं नवमं तत्त्वविचारो मम भामिनि एवं नवविधा भक्तिसाधनं यस्य कस्य वा स्त्रियो वा पुरुषस्यापि तिर्यज्ञोनिगतस्य वा भक्ति सेमलक्षण भक् संचातमातवा मिद मुक्ति जन्मनी सै तस्ण भक्तिर्मोक्ष सुनिम प्रथम साधन य भवेत्तस्य क्रमेण तु भवेत् सर्वं ततो भक्तिर्मुक्तिरेव सुनिश्चितं यस्मान्मद्भक्तियुक्तात्त्वं तदोहं त्वामुपस्थितः इदो मद्दर्शनान्मुक्तिस्तव नास्त्यत्र संशयः यदि जानासि मे ब्रूहि कमललोचना कुत्रास्ते केन प्रियामे प्रियदर्शना शबर्युवाच देवजानासि सर्वज्ञ सर्वं त्वं विश्वभावना तथापि पृच्छ सेयन्मां लोकाननुसृतः प्रभो ततोऽहमभिधास्यामि सीता यत्राधुना स्थिता रावणेन हृदसींगाया वर्तते धुनासमीपेमस्ते पंबा सरोवरम ऋष्यमूक गिरीम तत्समीपे महानग चुर्भि साधम सुग्रीव वनराधिद सदा तिष्ठत्यातुलविक्रमः वालिनश्च भयाद्भ्रादु तदगम्य मृषेर्भयाद् वालिनस्तत्र गच्छ त्वं तेन सख्यं कुरु प्रभो सुग्रीवेण स ते कार्यं सम्पादयिष्यति अहमग्निं प्रवेक्ष्यामि तवाग्रे रघुनन्दन मुहूर्तं तिष्ठराजेन्द्र यावदग्ध्वा कलेवरं यास्यामि भगवन् राम तव विष्णोः परं पदम् इति रामं समामन्द्र्यप्रविवेश उदाशनं क्षणान्निर्धूय सकलमविद्याकृतबन्धनं रामप्रसादाच्छ बरी मोक्षम् प्रापादि दुर्लभम कि दुर्लभ जगन्नाथरा भक्वत्सले प्रसन्ने जन्मा भी शबरी मुक्तिमापस किं पुनर्ब्राह्मण मुख्या पुण्य श्रीरामचिता मुक्ति या दीदी तदक्रिर्मुक्ति न संश भक्तिर्मुक्तिविधायिनी भगवदश्रीरामचन्द्रस्य हे लोकाक्कामदुःखाङ्घ्रिपद्मयुगलं सेवध्वमत्युत्सुकाः नानाज्ञानविशेषमन्त्रविदधिं त्यक्त्वा सुदूरे भृष्यं रामं श्यामतनुं स्मरारिहृदये भान्तं भजध्वं बुधाः श्रीमद्यात्मणे उमा संवा अकांडे दशमसर्गः सर्ग अर्य ओ